श्रीगणेशाय नमः श्रीगौरीशङ्कराभ्याम् नमः अथ श्रीशिवमहापुराणे विद्येश्वरसंहितायाम् पञ्चविंशोऽध्यायः रुद्राक्षमाहात्म्यम् सूतवाच शवनकर्षे महाप्राणशिवरूप महापते तृणुरुद्राक्षमाहात्म्यम् समासात् कथयाम्यहम् शिवप्रियतमो ज्ञेयो रुद्राक्ष परपावनः दर्शना स्पर्शना दास्यात् सर्वपाप हरस्मतः पुरा रुद्राक्ष महिमा देव्यग्रे कथितो मुने लोकप्रकरणार्थाय शिवेन परमात्मना शिव उवाच शृणो देवी महेशानि रुद्राक्ष महिमाशिवे कथयामि तव प्रीत्या भक्तानामितकाम्यया दिव्यवर्षसहस्राणि महिशानि पुनपुरा तपः प्रकुर्वतस्तन्त्रम् त्रस्तम् मनसंयम्य वै मम स्वतन्त्रेण परेशेन लोकोपकृतिकारिणा लीलया परमेशानि चक्षुरुन्मीलितम् मया पुटाभ्याम् चारुचक्षुर्भ्याम् पतिता जलबिन्दवः तत्राश्रुबिन्दुतो जाता वृक्षा रुद्राक्षसञ्चकाः स्थाव्रतम् अनुप्राप्य भक्तानुग्रहकारणात् ते दत्ता विष्णुभक्तेभ्य चतुर्वर्णेभ्य एव च रुद्राक्षान् शिववल्लभान् माथुरायाम् अयोध्यायां लङ्कायां मलये तथा सह्याद्रोच तथा काश्याम् दशेष्वन्येषु वा तथा परानसह्य पापना श्रुतिनोदनात् ब्राह्मणाक्षिया वै च शुद्रा दाता ममाज्ञया रुद्राक्षास्त्रे पृथिव्यां तु तजातीशुभाक्षक श्वेतरक्ता वर्ण जेया क्र बुध स्वजा नृभ रुद्राक्ष वर्णतक्रमा वर्णय तो तत्म धार्मक्तिशुभ शिवभक्त विशेषेन शिवो प्रीत सदा धात्री फल प्रमाण येतुदार ृणु पार्वती सुप्रीत्या भक्तानाम् हितकाम्यया बदरी फलमात्रं चिल महेश्वरी तथापि फलदं लोके सुख सौभाग्यवर्धनम् धात्रीफल समं यस्यात् सर्वारिष्टविनाशनम् गुञ्जयात् सदृशं यत् सर्वार्थ फलसाधनं यथा यथा लघु स्याद्वै तथाधिक फलप्रदः एकैकतः एक फलं प्रोक्तम् दशांश हि अधिकं प्रोक्तं पापनाशन तस्माच्च धारणीयो वै सर्वार्थसाधनो ध्रुवम् यथा न दृश्यते लोके रुद्राफलशुभ न तथा दृश्यते अन्या मालिका परमेश्वरी समास्निग्धा दृढा स्थूरा कण्टकैः संयुता शुभा रुद्राक्षा कामदा देवी भक्तिमुक्ति प्रदासदा कृमेदृष्टम् छिन्नभिन्नम् कण्टकैर्हीनमेव च व्रणयुक्तम् अवृत्तम् च दुद्राक्षां शिध विवर्जयेत् स्वयमेव कृतद्वारम् रुद्राक्षम् स्यादियोत्तमम् यत्तु पौरुषयत्नेन कृतम् तन्मध्यमम् भवेत् रुद्राक्षधारणम् प्रोक्तम् महापातकनाशनम् रुद्रसङ्ख्या शतं धृत्वा रुद्ररूपो भवेन्नरः एकादशशतानि हृत्वा यत् फलमाप्यते तत् फलम् शक्यते नैव वक्तुं वर्षशतेरपि शताधेन युते पञ्च शतेर्वै मुकुचं मतम् रुद्राक्षैचेतं भक्तिमहान् पुरुषो वरः त्रिविंशति षष्टियुक्ते त्रिरावृत्या तथा पुनः रुद्राक्षै उपवीतम् व निर्वीयाद्भक्ति तत्परः शिखायाञ्च त्रयम् प्रोक्तम् रुद्रक्षाणाम् महेश्वरी कर्णयो षट् षष्ट्यैव वाम दक्षिणयो तथा शतमेकोत्तरम् कण्ठे बाहुर्वै रुद्रसङ्ख्यया कुर्परद्वार्यो तत्र मणिबन्धे तथा पुनः उपवीते त्रयम् धार्यम् शिवभक्ति रथै नरैः केषानुर्वरितान् पञ्च संवितान् धारयेत् कटौ एतत् सङ्ख्याधृता येन रुद्राक्षा परमेश्वरी तद्रूपं तु प्रणम्यं हि सुत्यं सर्वे महेश वैत् एवम्भूतं स्थितम् ध्याने यदा कृत्वा समेजनम् शिवेति व्याहरन् सैव दृष्ट्वा पापे प्रमोच्यते शताधिकसहस्रस्य विधिरेश प्रकीर्तितः तदभावे प्रकारोण्य शुभ सम्प्रोच्यते मया शिखायामेकरुद्राक्षम् शिरसा त्रिंशतम् वहेत् पञ्चाशच्च गले दध्यात् बाहो षोडश षोडश मणिबन्धे द्वादशे द्वि स्कन्धे पञ्चशतं वहेत् अष्टोत्तरशतैर्माल्यम् उपवेतं प्रकल्पयेत् एवं सद्राक्षान् धारयेत् यो दृढव्रतः तं नमन्ति सुरा सर्वे यथा रुद्र तथैव सः एकं शिखायाम् रुद्राक्षम् चत्वारिंशत्तुमस्तके द्वात्रिंशत् कण्ठदेशे तु वक्षस्य अष्टोत्तरम् शतम् एक एकम् करणयोषट् षट् बाहो षोडश षोडश करयोर्विमानेन द्विगुण दीगो द्विगुणेन मुनीकर संख्यापीति धृतायेन सोपीशैव जनपरह शिव वयत् पूजनीयो हि वन्द्य सर्वे अभीक्ष्णशः शिरसि ईशानमन्त्रेण कर्णे तत्पुरुषेण च अघोरेण गले धार्यम् तेनैव हृदयेऽपि च अघोरबीजमन्त्रेण कार्योर्धारयेत् सुधि पञ्चदशाग्र गथिताम् वामदेवेन चोदरे पञ्च ब्रह्माभ्यङ्गै च त्रिमालाम् पञ्चसप्त च अथवा मूलमन्त्रेण सर्वा नक्षात् सुधारयेत् मध्यम् मासं तु लशुनम् पलाण्डुम् शीघ्रमेव च क्लेष्मान्तकम्बराहम् भक्षणे वर्धयेत्ततः वलक्षम् रुद्राक्षम् द्विजसनुभिरे क्षत्राणाम् प्रमोदितमु पीतमसकृ ततो वैश्ये धार्यम् प्रतिदिवसभावैश्यकमहो वैश्यकमहो कृष्णम् चूद्रयि श्रुतिगदितमान् कोऽयमगजे वर्णी वने गृहयति नियमेन दद्यात् एतदृहस्य परमो नैदातु पीठेत् रुद्राक्षधारणमिदम् सुकृते च लभ्यम् त्यक्वेदमेतदखिलान्न यन्ति आरो मलका स्वतो लघुतरा रुग्णा तथ कण्डकै सन्दष्टाकृमिभिः तनोपकरणछिद्रेण हि नास्या नैव शुभे सुीश्चन कवयत् रुद्राक्षमप्यन्ततो रुद्राक्षो ममलिङ्ग मङ्गलम् मुमे सूक्ष्मम् प्रशस्तम् सदा सर्वाश्रमाणाम् वर्णानाम् त्रिशूद्राणाम् शिवाज्ञया भार्या सदैव रुद्राक्ष यतेनाम् प्रणवेन हि दिवा बिभ्रत् रात्रिकृतै रात्रो बिभ्रद् दिवा कृतै प्रातर्मध्याह्नसायाह्ने मुच्यते सर्वपातकै ये त्रिपुण्ड्र धरालोके जटाधारीणैव ये रुद्राक्ष धराते वये। ये रुद्राक्षधरास्ते वै यमलोकम् प्रयान्ति न रुद्राक्षमेकम् शिरसा बिभर्ति तथा त्रिपुण्ड्रम् च ललाट् मध्ये पञ्चाक्षरम् यै जपन्ति मन्त्रम् पूजा भवद्भिः खलु ते सधव यस्याङ्गेनासि रुद्राक्ष त्रिपुण्ड्रम् भालपट्टके मुखे पञ्चाक्षरं नास्ति सम्मानय यमालयं ज्ञात्वा ज्ञात्वा तत्प्रभावं भस्मरुद्राक्षधारिणः ते पूज्या सर्वदा अस्माकं न कदाचन एवं वा कालोपीन कालोऽपि निज किङ्गरां ते सर्वे तूष्णीमासन् सुविस्मिता अत महादेवी रुद्राक्षोप्य घनाशन सोयशु अगवान् पार्वती हस्ते बाहो तथा मूर्नी रुद्राक्ष धारये तो यध्य सर्वूताी चेधुवी सुसुराणा वंदनीय सदा सै पूजनी हि धृष्ट पापः च यथा चिव ज्ञानज्ञानावमुक्तोऽपि रुद्राक्षम् धारयेत् यः सर्वपाप विनिर्मुक्तः स या ते परमां गतिम् रुद्राक्षेण च पन्मन्त्रम् पुण्यम् कोटिगुणम् भवेत् दशकोटिगुणम् पुण्यम् धारणात् लभते नरः यावत्कालम् जीवस्य शरीरस्थो भवेत् सवि तावत्कालम् स्वल्पमृत्यु न देवी विबाधते त्रिपुण्डरेण देव च संयुक्तम् रुद्राक्षाविलसाङ्गकम् मृत्युञ्जयम् जपन्तम् च दृष्ट्वा रुद्रफलम् लभेत् पञ्चदेव प्रियश्चैव सर्वदेव प्रियस्तथा सर्वमन्त्रान् जपेद्भक्तो रुद्राक्षमालया प्रिये विष्वादीदेव भक्ता च धारये योर्न संशयः रुद्रभक्तो विशेषेण रुद्राक्षान् धारयेत् सदा रुद्राक्षा विविधा प्रोक्ता तेषाम् वेदान् वदाम्यहम् शृणु पार्वती सद्भक्त्या भक्तिमुक्तिफलप्रदान् एव एकवक्त्र शिवसाक्षात् भक्तिमुक्तिफलप्रदः तस्य दर्शनमात्रेण ्रह्मत्यां व्यपोहयति यत्र सम्भुजितस्तत्र लक्ष्मीदूरतरा न हि नश्यन्त्युपद्रवा सर्वे सर्वकामा भवन्ति त्रिवक्त्रो देव देवेश सर्वकामफलप्रदः विशेषत सरुद्राक्षो, रुद्राक्षो गोवधम् नाशी धृतम् त्रिवक्त्रो यो हि रुद्राक्ष साक्षात् साधर सदा तत्प्रभावाद् भवेयुर्वे विद्या सर्वा प्रतिष्ठिता चतुर्वक्त्र स्वयं ब्रह्मा नरहत्यां व्यपूहयति दर्शनात् स्पर्शनात् सद्य चतुर्वर्ग फलप्रदः पञ्चवक्त्र स्वयं रुद्र कालाग्नि नामत प्रभु सर्वमुक्ति प्रदश्चैव सर्वकामफलप्रदः अगम्यागमनं पापम् अद्भक्स्य च भक्षणम् इत्यादि सर्वपानि पञ्चवक्त्रो व्यपोहति षड् वक्त्र कार्किदे कार्तिके यस्तु दक्षिणे भुजे ब्रह्मवत्यादिके पापै मुच्यते नात्र संचयः सप्तवक्त्रो महेशानि यनंगो नाम नामतः धारणात्तस्य देवेशी दरिद्रोऽपि भवेत् रुद्राक्षश्चाट वक्त्रश्च वसुमूर्ति च भैरव धारणात् तस्य पूर्णायु मृतो भवति शूलभृत भैरवो नवभक्त्रश्च कपिलश्च मुनिस्मृतः दुर्गा वा तदधिष्ठात्री नवरूपामहेश्वरी तं धारयेद्वामहस्ते रुद्राक्षं भक्ति सर्वेश्वरो भवे नूनम् मम तुल्यो न संशयः दश स्वयं देवो जनार्दनः धारणात् तस्य देवेशि सर्वान् कामान् अवाप्नुयात् एकादश एक रुद्राक्षे परमेश्वरी स रुद्रो धारणात् तस्य सर्वत्र विजयी भवेत् द्वादशास्य रुद्राक्षे धारयेत् केश अधीत्या सर्वे द्वादशैव स्थिता तथा त्रयोदश मुखो विश्वे देवस्तद्धारणान्नरः सर्वान् कामान् अवाप्नोति सौभाग्यं मङ्गलं लभेत् चतुर्दश मुखो यो हि रुद्राक्ष परम शिव धारयेन्नोर्नितंभ्य सर्वपापं प्रणचति इति रुद्राक्ष भेदा प्रोक्ता विमुखभेदतः तन्मन्त्रान् शृणुप्रोक्ता शृणुप्रीत्या क्रमाक्षैलेश्वरात्मजे ॐ नम ॐ नम ॐ क्लीं नमः ॐ ह्रीं नमः ॐ ह्रीं नमः ॐ ह्रीं हुं नमः ॐ ह्रीं नमः ॐ हृं नमः ॐ ह्रीं हुं नमः ्रीं नमः ॐ ह्रीं हूं नमः ॐ क्षौ रौं नमः ॐ ह्रीं नमः ॐ नमः भक्ति श्रद्धायुते चैव सर्वकामाससिद्धये रुद्राक्षान्धारयेन्मन्त्रे देवी आलस्यवर्जितः विना मन्त्रेण होधत्ते च रुद्राक्षम् स याति नरकम् घोरम् यवदिन्द्रा चतुर्दश रुद्राक्षिमालिनम् दृष्ट्वा भूतप्रेतविशाचकः दाकिनी शाकिनी चैव ये चान्ये द्रोहकारकः कृत्रेमम् चैव यत्किञ्चित् अभिचारादिकम् च यत् तत्सर्वम् दूरतो याति दृष्ट्वा शङ्कितविग्रहम् रुद्राक्षमालिनम् दृष्ट्वा शिवो विष्णु प्रसीदति देवी गणपति सूर्य सुराचार्ये पार्वती एवं ज्ञात्वा तु माहात्म्यम् महेश्वरी सम्यग् धार्या च मन्त्रा च भक्त्या धर्म विवृद्धये इत्युक्तम् गिरिजाग्रेहि शिवेन परमात्मना भस्मरुद्राक्ष माहात्म्यं भुक्ति मुक्ति फलप्रदम् शिवस्याति प्रियो भस्मरुद्राक्षधारिणो तद्धारण प्रभावली भुक्तिमुक्तेन समुचयः भस्मरुद्राक्षधारीय शिवभक्तः स उच्यते च सन्मुखे विना भस्म त्रिपुण्ड्रेण विना रुद्राक्ष महादेवो नभष्ट फलदायक तत्सव सख्यात युष्टम हि मुनीर भस्म रुद्राक्ष महात्म्यंकाम समृद्धि एकुणुया निम महात्म्यं परमं शुभम रुद्राक्ष भस्मोभक् सर्वान्माया सुखम भुक् पुत्रपौत्रादी संयुत लभेत् परत्र सन्मोक्षम् शिवस्याति प्रियो भवेत् विद्येश्वरसंहितेयम् कथयिता वो मनेश्वरः सर्वसिद्धि प्रधा नित्यम् इति श्री शिवमहापुराणे प्रथमायाम् विद्येश्वरसहितायाम् साध्यसाधनखण्डे रुद्राक्षमात्मवर्णनो नाम पञ्चविंशोऽध्यायः समाप्तेयम् प्रथमा विद्येश्वरसंहिता श्रीगौरीशङ्करार्पणमस्तु